श्रीमद्भागवत् महापुराणम् एकादशस्कन्धम् अथ द्वाविंशोऽध्यायः तत्त्वो की सङ्ख्या और पुरुषप्रकृतिविवेक उद्धौ वाच कति तत्त्वानि विश्वासङ्ख्यात्या ऋषिभि प्रभो नवैकादश पञ्च त्रिण्याथ केचि <mí> षड्विंशतिं प्राहुर्परे पञ्चविंशतिं सप्तैके नव षट् केचिच्चत्वारिकादशा परे केचित् सप्तदश प्राहुषोडशैके त्रयोदश एतावत्त्वं हि सङ्ख्यानां ऋषयोः यद्विवक्षया गायन्ति पृथगायुष्मन्नितं नो वक्तुमर्हसि श्रीभगवानुवाच युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणायथां मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् नैतदेवं यथार्थं त्वं यदहं वच्मि तत्तथा एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः यासां व्यतिकरादासीद्विकल्पो वदतां पदम् प्राप्ते समदमेऽप्येति वादस्तमनुशाम्यते परं परस्परानुप्रवेशात्तत्त्वानां पुरुषर्षव पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् एकस्मिन्नपि दृश्यन्ते ग्रविष्टानितराणि च पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वश पौर्वापर्यमतोमेषाम् प्रसङ्ख्यानम् अभीप्सिताम् यथा विविक्तम् यद्वक्त्रम् गृह्णो मो युक्तिसम्भवात् अनाद्यविक्ताम् अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् सतो न सम्भवादन्यतत्त्वज्ञो ज्ञानदो भवेत् रत्र, न कल्पना, मन्वपि तदन्यकल्पनापार्थाज्ञानं च प्रकृतेर्गुणः प्रकृतिर्गुणसाम्यं वै प्रकृतिर्नात्मनो गुणाः सत्त्वं रजस्तमिति स्थित्योत्पत्यन्त हेतवः सत्त्वं ज्ञानं रजः कर्म तमो ज्ञानविमोह्यते विमोच्यते गुणव्यतिकरकालस्वभावसूत्रमेव च पुरुषप्रकृतिरव्यक्तम् अहङ्कारो न भूनिलः ज्योतिरापह चितिरिति तद्वान्युक्तानि मेनव श्रोत्वं तग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः वाक्पाण्योपस्थापाङ्घ्री कर्माण्यङ्गोभयं मनः शब्दस्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः गत्युक्तुत्सर्गशिल्पादि कर्मायतनसिद्धयः सर्गादौ प्रकृतिर्षस्य कार्यकारणरूपिणी सत्त्वादिभिर्गुणैर्धत्ते पुरुषो व्यक्तैक्षते व्यक्तादयो विकुर्वाणा धातव पुरुषेक्षयां लब्धवीर्या सृजन्त्यण्डं सङ्घता प्रकृतिर्बलात् सप्तैव धातविति तत्रार्था पञ्च खादय ज्ञानमात्मोभयाधार ततो देहेन्द्रियाशवः षटित्यत्रापि भूतानि पञ्चषष्ठपरपुमान् तैर्युक्त आत्मसम्भूतये सृष्टवेदं सोपाविशत चत्वार्ये वेति तत्रापि तेज आपूर्णमात्मनः जातानि चैरितम् जातं जन्मा वयविना खलु सप्तदसके सप्तदश के भूतमातेन्द्रियाणि च पञ्चपञ्चैकमनसा पंचा आत्मा सप्तदश स्मृतः तद्वत् षोडशसङ्ख्यानि आत्मैव मनुच्यते भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च अष्टौ प्रकृतियश्चैव पुरुषश्च न वेत्तत इति नानाप्रसङ्ख्यानां तत्त्वानां ऋषिभीकृतं सर्वं न्यायं युक्तिमत्त्वा विदुषां किमुशोभनम् उद्धौ उवाच प्रकृते पुरुषस्थोभौ यद्यां यद्यप्यात्मविलक्षणौ अन्योन्यापाश्रयात्कृष्णदृश्यते न भिदातयोः प्रकृतौ लक्षते ह्यात्मा प्रकृतिश्च तथात्मने एवं मे पुण्डरीकाक्षमहान्तं संशयं श्री चेतुर्मर्हसि सर्वज्ञ वचोभिर्नैनैपुलैहम् तत्तो ज्ञानं हि जीवानां प्रमोषस्ते त्रिशक्तितः तमेवयात्ममायाया गतिं वेथ न चापरः श्रीभगवानुवाच प्रकृते विकल्प विकल्पपुरुषशभ ये सर्गो गुण ममांग विकल्प वैकारिक व्यतिमक मंगमाया गुणमय्यनेकलबुद्धे गुणेते वैकारिस्त्रीध्यात्मेकमूतम